श्रीहरये नमः अत अष्टदसोऽध्यायः मैत्रेय उवाच इत्थं प्रतम् अभिष्टूयरुषा प्रस्फुरिदादरं पुनराहावनिर्भीता संस्तभ्य आत्मानम् आत्मना सन्नियश्चाभिमो मन्युं निभोतशावितं च मे सर्वतः सारमाधत्ते यथा अस्मिन् लोके तवामुष्मिन्मुनिभिस्तत्त्वधर्षिभिः दृष्टा योगा प्रयुक्ताश्च ष्ठन्ति यः उपायान् पूर्वदर्शितान् अवरश्रद्धयोपेत उपेयान् विन्तते यजसा ताननाधृत्ययो विद्वान् अर्थानारभते स्वयं तस्य व्यचरन्त्यर्था आरब्धाश्च पुनः पुनः पुरा वोषदयो विशाम्पते, सृष्टा वोषधाया विशापते बुझम्हासुतव्रत अतातुता चवदिर्लोकपाल चोरी भूते तलोकेहम्तेसमोक्षतीतीतीतीतीतीतीतीतीती नूनमताक्षिणाम मयि काल भूयसा योगेन दृष्टेन भवानाधातुमर्हति वत्सं कल्यमे वीरयेनाहं वत्सलाधव दोक्ष्ये क्षीरमयान् कामान् अनुरूपं च दोहनं दोग्धारं च महाभागो भूतानां भूतभावन अन्नमीप्सितमोर्जस्वद्भगवान् वाञ्छते यदि सामं चुंराजन्वृं यता पय अपर्ताव पिभ्रम ते उपवर्त विभो इते प्रियं हितं वाक्यं भुव आधाय भूपतेर वत्सं आधार भूपते मनु पाण वधुहत्सकी तथा परे चर्वधते भूता तथोन यता काम दुतु प्रथुभा ऋषयो दुतुः इन्द्रियेष्वत सत्तम वत्सं बृहस्पतिं कृत्वा पयश्चन्दोमयं शुचि कृत्वा वत्सं सुरगणा इन्द्रं सोममधूतुहन् हिरण्मयेन पात्रेण वीर्यमोजो भलं पयः दैते वत्संप्रह्राधमसुरर्षभं विधाया धूतो कं क्षीरमयः पात्रे सुरासवं। गन्धर्वा प्रसोदुषन् पात्रे पद्ममये यपयः वत्सं विद्यां च च चा विद्याधराधयः अन्ये च मायिनो मायाम् अन्तर्नाधाद्भुतात्मना मह्यं प्रकल्प्य वत्सं ते धुदुः धारणामयी यक्षरक्षांसि भूतानि पिशाचापिशिधाशनाः भूते च वत्सा धुतुः कपाले तथाहयो दन्तसुखा सर्पा नागाश्च दक्षकम् विधाय वत्सन्धुतुःर्भिलपात्रे विषम्पयः वसवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् अरण्यपात्रे साधुक्षन् मृगेन्द्रेण च धं श्रृणः क्रव्याधाप्रणिनः क्रव्यं धुतुः स्वे कले वरे सुपर्णवत्सा विहगाश्चरं चाचरमेव च वडवत्सा गिरयोहिमवद्वत्सा नानाधातून् स्वसानुषो सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक् पयः सर्वकामधुखां पृथ्वीं धुतुः पृथुभाविताम् एवं पृत्पादयः पृथ्वीम् अन्नाधस्वन्दम् आत्मनः दोकवत्सादिभेतेन क्षीरभेतं कुरुध्वः ततो महीपतिः प्रीत सर्वकामा दुकां प्रतुः दुहितृत्वे चकारे मां प्रेम्णा दुहितृवत्सलः कुर्नयन् स्वधनुष्कोट्या गिरीकूटानि राजराट् भूमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः अतऽस्मिन् भगवान् वैन्यप्रजानां पिता निवासान् कल्पयाञ्चक्रे तत्र तत्र यथार्हतः ग्रामान् पुरः पत्तनानि विविधानि च घोषान् व्रजान् स शिबिरान् आकरान् केटकर्वटान् प्राक्पृतोरिकनैवेशो पुरग्रामादिकल्पना वसन्ति स्म तत्र तत्र अगुतो भयाः इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्धे प्रदुविजये अष्टादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहराजके जय